अग्नाविष्वा सजोषेमावर्थम् तु भाङ्गिरः यम्नैर्वाजेभिरागतम् द्वादश प्रसवस्तमे प्रजतिष्टमे प्रजतिष्टमे धीतिष्टमे क्रतुष्टमे स्वरस्तमे श्लोकस्तमे श्रावस्तमे श्रमे ज्योतिष्टमे शुभस्तमे प्राणस्तमे बाणस्तमे ज्ञानस्तमे चित्तञ्चम आधीतञ्जमे वाच्चमे मनस्तमे चक्षुष्टमे श्रोतञ्चमे राक्षस्तमे पलं च मोधस्तमे सहस्तम आयुष्टमे जरा नमः मा च मे तनोश्च मे सन्मच मे वर्मच मे अङ्गानि च मे स्थानि च मे परोगं ज्येष्ठं च माधिपत्यञ्चमय मन्यष्टमय भामश्चमयमष्टमय अम्भश्च मय नेमाज मय महिमाज मय वरिमाजमय प्रथिमाज मय वस्माच मे इन्द्राघुजाज मय सत्यं च मय श्रद्धा च मय जगच्च मय धनंज मय वषश्च मय द्विषश्च मय क्रीडा च मे मोदश्च मय जातञ्जमय हविष्यमाणं च मे सूक्तञ्चमय च मे वित्तञ्चमय च भौतं च मे सुगन्ध मे सुभञ्जमलध्वञ्जमलष्ट मे गत्पञ्च मे गुप्तिष्ठमे मतिष्ठमे सञ्चमे वयस्तमे प्रियञ्चमेऽनुकामश्चमे कामश्च मे सौमनसस्तमे भद्रञ्च मे श्रेयजश्च मे वस्त्रश्चमे रसस्तमे भगश्च मे द्रविणञ्च मे नन्दाच मे चाच मे क्षेमस्तमे धञ्च मे महस्तमे संविच्च मे ज्ञात्रञ्चमे सोष्टमे रसोष्टमे श्रीरञ्च गं जमे शृगनञ्जमे सुन्द मे भोचमय मुग्लाश्च मे खल्वाश्च मे गोधूमाश्च मे मधुराश्च मे स्मा च मे मृत्तिका च मे गिरजश्च मे पर्वताश्च मे सिगताश्च मे वनस्वदयश्च च मे यश्च मे श्रीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मे क्लिष्ट महापश्च मे तां व्यक्तञ्च मे मे भोजन्त मे भोजश्च मे वस च मे दृष्टमे तस्थमये मस्तमय दुष्टमे गतिष्टमे अग्निश्च मलीन्द्रस्त मे सोमश्च महीन्द्रस्त मे सविरा च मलिन्द्रस्त मे सरस्वती च मलीन्द्रस्त मे भूषा च मलिन्द्रस्त मे बृहस्पतिश्च मरीन्द्रस्त मे मित्रश्च मरीन्द्रस्त मे वरुणश्च मरीन्द्रश्च मे त्वष्टा च मरीन्द्रश्च मे धाता च मरीन्द्रस्त मरिन्द्रस्त मे दुषस्थ मरिन्द्रस्त मे मोहभाज मलिन्द्रस्त ष्टमे रश्मिस्तमे धुवस्तम उपागुंशुस्तमेन्दर्यामस्तमऐन्द्रवाधवस्तमे मेत्रावरुणस्तम आश्विनस्तमेनस्तमे शुक्रस्तमे वन्धेतमःणस्तम वैश्वदेव नस्तमे ध्रवस्त मे वैश्वामरस्तमलुग्रहाश्रमे दिव्याश्वाश्रम इन्द्रा नष्टमे मे च वित्वश्च मे धानस्वतश्च मे बहुष्णश्च मे पात् निवतश्च भमे वर्धिष्ठमे वेदष्टमे धृष्णजामे स्तुजामे तमसाष्टमे ग्रावाणाष्टमे स्वरभश्चमौ वरभाश्च मे धृतमे वायुव्यानुजमे आधवनीदश्च आग्नेभ्यञ्चमे ह्वानि मे गृहाश्च मे कृमे अग्निस्तमे धर्मस्तमे सूर्यस्तमे प्राणस्तमेधस्तमे पृथिवे च मे दिदिष्टमे दिदिस्त मे द्यौस्तमे चत्वरे रङ्गुलजो दिषस्तमे यज्ञेन कल्पम् मे वत्साष्टमे त्र्यविष्टमे त्रिबीज मे ऋवाच्य मेत्यौ हे च मे पञ्चाविष्टमे पञ्चाबीज मे त्रिवत्सश्च मे त्रिवत्साधमेवाच्य मे तुर्यौहेष्ठवाच्य मेष्ठौ हि मोक्षा च मे वशाचमऋच्य मेवाञ्च मे धेनश्च महायुर्जज्ञेन कल्पतां भागशास्त्रे ज्ञानकल्पदा मनोरि ज्ञानकल्पदा महा ज्ञानकल्पदा महात्मारि ज्ञानकल्पदा एकाद मे द्विस्रष्टमे पञ्चतमे सप्तच ममे नव च मदेकादशतमे त्रयोदशतमे पञ्चदशतमे सप्तदशतमे नवदशतमदेकविगं षतिष्टमे त्रयोभिगं षतिष्टमे पञ्चभिगं षजिष्टमे सप्तविग्ं षधिष्ठमे नवभिगं षतिष्टमदेकत्रियं षष्टमे त्रयस्त्रियं षच्चमे चतस्रष्टमे अष्टौ च मे द्वादशतमे षोडशतमे विघं षतिष्टमे चतुर्विघं षतिष्टमे अष्टाभिगं षतिष्टमे ध्रियम् सत्यमे षद्धियम् सत्यमे चत्वारिकम् सत्यमे चतुश्चत्वारिकम् सत्यमेष्टाचत्वारिकम् सत्यमेवागस्य प्रथमश्चामिजश्च क्रतुश्च मोर्धा चेहश्चान्यश्च भौवनश्च भुवनश्चाधिपतिश्च